श्रीमद्भागवत् महापुराणं नोमम् उष्कन्ध पञ्चदशोऽध्यायः अथ राजनिर्याते राम आश्रममागतः श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधा हेरिवाहतः घोरमादाय परशुं सतूढं चर्मकार्मुकम् अन्वधावत् दुर्सरसो मृगेन्द्र युवयूथपम् तमापतन्तं भृगुवर्यमोजसाधनुर्धरं बाणपरस्विसिन्धायुधम् ऐळेयचरमाम्बरम् अर्कधामभियुतं जटाभिर्दिशे पुरीं विषन् अचोदे अद्धस्तीरथा स्वपत्तिभि अक्षौहिणी सप्तदशातिभीषणाताराम एको भगवान् सूदयन् यतो यतो सव प्रहरत्पं परश्वधो मनो निलौजापरचक्रसूदनं ततस्ततच्छिन्नभुजोरुकन्दरानि पेतुरुर्व्यां हतसूतवाहनां दृष्ट्वा स्वसैन्यं हृधिरोघकर्दमेरणाजिरे रामकुठारचायकै विविग्नचर्मध्वजचापविग्रहं निपातितं है हे आपददृशाम् अथार्जुनपञ्चशते सुबाहुवि धनुषु बाणाञ्जुगुपस्य सन्दधे रामाय रामोऽस्रभृतां समग्रणीताण्डेकधन्वेषुभिराचिनः समम् पुनः स्वहस्तैरचलानं वृथे नृम्पा उत्थेप्यवेगादभिधावतो युधे भुजान्कुठारेण कठोरणे मिना चिक्षेद रामप्रशमं त्वहेरिव हृद्दाहो शिरस्तस्य गिरे शृङ्गमिवाहरन् हते पितरि तत्पुत्रा अयुतं दुद्रूम्भया अग्निहोत्रीमुपावर्त्य संवत्सां परवीरः समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् स्वकर्म तत्कृतं राम पित्रे भ्रातृभ्यैव च वर्णयामास तद्धृद्वाजमदग्निरभाषत राम राम महाबाहो भवान् पापम् अकारसी अवधिन्नदेवं यः सर्वदेवमयं वृथा वयं हि ब्राह्मणास्तात् क्षमयार्हणतां गता यया लोकगुरुर्देव पारमेशमगात्मम् क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा शमिळामाशुं भगवान् तुस्य ते हरिरेश्वरः राज्ञो मरुधाभिषिक्तस्य वधो ब्रह्मबधाद्गुरु तीर्थसंसेवया चाम्भों जह्यङ्गाचितचेतनः इति श्रीमद्भागवते महापुराणे पारहिंसां सहितायां नवस्कन्धे पञ्चदशोऽध्यायः